उत्तरकाण्डं सर्गं सवन् श्रीमहादेव उवाच वाल्मीकिना बोधितोऽसौ कुशः सद्यो गतभ्रमः अन्तर्मुक्तो बहिः सर्वमनुकुर्वं चकारसः वाल्मीकिरपि तौ प्राह सीतापुत्रौ महा तत्र तत्र च गायन्तौ पुरे वीधिषु सर्वतः रामस्याग्रे प्रगायेदं शुश्रूषुर्यदि राघवः न ग्राह्यं वै युवाभ्यां तद्यदि किञ्चित् प्रदास्यति इति तौ चोदितौ तत्र गायमानौ विचेरतुः यथोक्तमृषिणा तत्रा तत्र तत्राभ्यगायतां तां सशुश्राव काकुत्स्थः पूर्वचर्यां ततस्ततः गेयेन समभिप्लुतां बालयोराकवश्रुत्वा कौतूहलमुपेयिवान् अथ राजा समाहूय महामुनीन् राज्ञश्चैव नरव्याक्रः पण्डितांश्चैव नैगमान् पौराणिकान् शब्दविदो ये च वृद्धाद्विजातयः एतान् सर्वान् समाहूय गायकौ समवेशयद ते सर्वे कृष्टमनसो राजानो ब्राह्मणादयः रामं तौ तारकौ दृष्ट्वा विस्मिताह्यनिमेषणाः अवोचन् सर्व एवैते परस्परमधागताः इमौ रामस्य सदृशौ बिम्बात् बिम्बमिबोदितौ जडिलौ यदि न स्यादां न विशेषं नाधिगच्छामो राघवस्यानयोस्तदा एवं संवददां तेषां विस्मितानां परस्परं। उपचक्रमधुर्गादुं तावोभौ मुनिधारकौ ततः मधुरं गान्धर्वमधिमानुषं कृत्वा तन्मधुरं गीतमपराह्णे रेकोत्तमः उवाच भरतं चाभ्यां दीयतामयुतं वसु दीयमानं सुवर्णं तु न तज्जगृहदुस्तदा किमनेन सुवर्णेन राजन्नौ वन्यभोजनौ इति सन्त्यज्य सन्दत्तं जग्मदुर्मुनिसन्निधिं एवं श्रुत्वा दुचरितं रामस्वस्यैव विस्मितः ज्ञात्वा सीताकुमारौ तौ शत्रुघ्नं चेदमब्रवीद हनुमन्तं सुषेणं च विभीषणमधाङ्गतं भगवन्तं महात्मानं वाल्मीकिं मुनिसत्तमम् आनयध्वं मुनिवरं ससीतं देवसंमितम् अस्यास्तु पर्षदो मध्ये प्रत्ययं जनकात्मजा करोदु शपथं सर्वे जानन्दु गतकल्मषां सीतां तद्वचनं श्रुत्वा गता सर्वे दिविस्मिताः ऊच्युर्यथोक्तं रामेण वाल्मीकिं रामपार्षदाः रामस्य हृद्गतं सर्वं ज्ञात्वा वाल्मीकिरब्रवीद श्वकरिष्यति वैसिता शपथं जनसंसदि योषितां परमं दैवं पदिरेव न संशयः तच्छ्रुत्वा सहसा सर्वे ोचो मुने वच राघवशा श्रुवा मुनचस्त राजो मुनये शुणुध्विदाब्रवीद सीताया शपथम लोका विजानु शुभाशुभुक्ता राघवेणाध लोकाः सर्वे दिदृक्षवः ब्राह्मणाः क्षत्रिया वैश्या शूद्राश्चैव महर्षयः वानराश्च समाजग्मुकौ दूलसमन्विताः ततो मुनिवरस्तोर्णं सशीदः समुपागमद अग्रतस्तमृषिं कृत्वा यान्दी किञ्चिदवाङ्मुखी सीधा सीतायज्ञं विवेशतं दृष्ट्वा लक्ष्मीमिवा यान्दीं ब्रह्माणमनुयायिनीं वाल्मीकेः पृष्टतः साधुवादो महान् अभूत् तदा मध्ये जनौखस्य प्रविश्य मुनिपुङ्गवः सीता सहायो वाल्मीकिरिति प्राहचराखवम् इयं दाशरथे सीता सुव्रता धर्मचारिणी अपापाते पुरा मश्रम समीप लोकापवादेद न्व मह प्रत्यते सीता तदनुाहसी इम तो सीता तनयामौ यमलक दुर्धर्ष त्य में द ब्रवीमिते प्रचेतसोकं दशं मः पुत्रो रकुकुलोद्वः अनृतं न स्मराम्युक्तं तधे मौ तव पुत्रकौ बहून् वर्षगणान् सम्यक्तपश्चर्या मया कृता नोपाश्नीयां फलं तस्या दुष्ठेयं यदि मैथिली वाल्मीकि नैव राखव वमीक मुक्तस्त राघव प्रत्यषद वदसि यदि प्रत्ययो जनितो मह्यं तव वाक्यक मे वैदे प्रत्ययो महां देवानां पुरतस्तेन मन्दिरे सम्प्रवेशिता सेयं लोकभयाद्ब्रह्मन्नपापि सती पुरा सीता मया परित्यक्ता भवां तत्क्षन्तुमर्हति ममैव जातौ जानामि पुत्रवेतौ कुशीलवौ शुद्धायाम् जगदी मध्ये सीतायां प्रीतिरस्त मे देवा सर्वे पिज्ञा रायत्सुका ब्रणमग्रद्वा साम जग मुत्सहस्रश प्रजा सगमन हृष्ट कौशे वासिनी कौशेयवासी उदंग ह्यधोदृष्टिप्राचल्यवाक्यमब्रवीत राह वै मन सा न चिंत तथा मे धरणी देवी विवरं धरणीदेवी विवरम प्रादुरासीन दुरासीन्महाभुद भूतला दिव्यमत्यर्थं सिंहासनमनुत्तमं नागेन्द्रैर्ध्रियमाणं च दिव्यदेहैरविप्रभं भूदेवी जानकीं दोर्भ्यां गृहीत्वा स्नेहसंयुधा स्वागतन्तामुवाचैनामासने संन्यवेशयद सिंहासनस्तां वैदेहीम् प्रविशन्तीं रसातलं निरन्तरा दिव्यासीता मवाकिरत साधुवातश्च सुमहान् देवानां परमाद्भुतः ऊचुश्च बहुथा वाचो ह्यन्तरिक्षगताः सुराः अन्तरिक्षे च भूमौ च वर जंगन महाकाया सीता शपथ कारणाद कारण के केजिच्चिता परास्त केजिध्यानपरायणा केजिद्रां निरीक्षं केजिशीताचेतस मुहूर्तमात्रम् तत्सर्वं तूष्णीम् भूदमचेतनं सीताप्रवेशनम् दृष्ट्वा सर्वम् सम्मोहितम् जगत् रामस्तु सर्वं ज्ञात्वैव भविष्यत्कार्यगौरवम् अजानन्निव दुःखेन शुशोच जनकात्मजाम् ब्रह्मणा बोधितो ऋघुनन्दनः प्रतिबुद्ध इव स्वप्नाच्चकारानन्दराक्रियाः विससर्जऋषीन् सर्वान् ऋत्विजो ये समागदाः तान् सर्वान् धनरत्नाद्यै स्तोषयामास भूरिशः उपादाय तदादि कुमोध्यामगम्रभु तदा निस्पृो राभोगुदा आत्मचिता परो निपस्थित ध्यानता राघवेश सति। ज्ञात्वा नारायणं साक्षात् कौसल्या प्रियवादिनी भक्त्यागत्य प्रसन्नं तं प्रणदा प्राहृष्टधीः रामत्वं जगदामादिरादिमध्यान्दवर्जितः परमात्मा परानन्दपूर्णः पुरुष ईश्वरः जादोसिमे मे गर्भगृहे मम पुण्यादि रेकतः अवसाने ममाप्यद्य समयो भूद्रकृतम नाद्याप्यबोधकृत्स्नो भवबन्धो निवर्तते इदानीमपि मे ज्ञानं भवबन्धनिवर्तकं यथा सङ्क्षेपदो भूयात् तथा बोधय विभो निर्वेदवादिनी मे वन् मादरं मातृवत्सलः दयालुः धर्मात्मा जरा जर्जरितां शुभां मार्गास्त्रयो मया प्रोक्ताः पुरा मोक्षाप्तिसाधकाः कर्मयोगो ज्ञानयोगो भक्तियोगश्च शाश्वतः भक्तिर्विभिद्यते मादस्त्रिविधा गुणभेदतः स्वभावो यस्य यस्तेन तस्य भक्तिर्विभिद्यते यस्तु हिंसां समुद्दिश्य दम्भं मात्सर्यमेव वा भेदधृष्टिश्च संरम्भी भक्तो मे तामसस्मृतः फलाभिसन्धिर्भोगार्थी धनकामो यशस्तथा अर्चादौ भेदबुद्ध्या मां पूजयेत्स तु राजसः परस्मिन्नर्पितं यस्तु कर्म निर्हरणाय वा कर्तव्यमिति वा कुर्याद्भेदबुद्ध्या स सात्विकः मद्गुणाश्रयणादेव मय्यनन्दगुणालये अविच्छिन्नामनो वृत्तिर्यथा गङ्गाम्बुनोम्बुधौ तदेव भक्तियोगस्य लक्षणं निर्गुणस्य हि अहैतुक्य व्यवहिता या भक्तिमयि जायते सामेसा लोक्य सामीप्यिसाज्य सा ददापि न गृहति भक्ता मत्सवन विना स योगो भक् मार्गस्य भामिनि मद्भावं प्राप्नुयात्तेन अतिक्रम्यगुणत्रयं महदाकामहीनेन स्वधर्माचरणेन च कर्मयोगेन शस्तेन वर्जितेन विहिंसनाद मद्दर्शनस्तुतिमहापूजाभिस्मृतिवन्दनैः भूतेषु मद्भावनया सङ्गेनासत्यवर्जनैः बहुमानेन महदां दुःखिनामनुकम्पया स्वसमानेषु मैत्र्या च यमादीनां निषेवया वेदान्तवाक्यश्रवणान्मम नामानुकीर्तनाद सत्सङ्गेनार्जवे नैव ह्यह मत्परिवर्जनाद् काङ्क्षया मम धर्मस्य परिशुद्धान्तरो जनः मद्गुणश्रवणादेव यादिमामञ्जसा जनः यथा वायुवशाद्गन्धस्वाश्रयाद्घ्राणमाविषेत् योगाभ्यासरदं चित्तमेवमात्मानमाविषेद सर्वेषु प्राणिजातेषु ह्यहमात्मा व्यवस्थितः तमज्ञात्वा विमूढात्मा कुरुते केवलम् बहिः क्रियोत्पन्नैर्नैकभेदैर्द्रव्यैर्मे नाम्बतोषणं भूतावमानिनार्चायामर्चितोऽहं न नपूजितः तावन् मामर्चयेद्देवं प्रतिमादौ स्वकर्मभिः यावत्सर्वेषु भूतेषु स्थितं चात्मनि नस्मरेद स्मरेद यस्तु भेदं प्रकुरु ते स्वात्मनश्च परस्य च भिन्नदृष्ठेर्भयं मृत्युस्तस्य कुर्यान्न संशयः माम तत्सर्वभूतेषु परिच्छिन्नेषु संस्थितम् एकं ज्ञानेन मानेन मैत्र्या चार्चेदभिन्नधीः चेदसैवानिशं सर्वभूतानि प्रणमेत् सुधीः ज्ञात्वा मां चेतनं शुद्धं जीवरूपेण संस्थितम् तस्मात् कदाचिह्ने क्षेदभेदमीश्वरजीवयोः दा भक्तियोगो ज्ञानयोगो मया मातरुदीरितः आलम्ब्यैकतरं वापि पुरुषशुभमृच्छति ततो मां भक्तियोगेन मातः सर्वहृदि पुत्ररूपेण वा नित्यं स्मृत्वा शान्तिमवाप्स्यसि श्रुत्वा रामस्य वचनं कौसल्यानन्दसंयुता रामं सदा हृदि ध्यात्वा चित्वा संसारबन्धनम् अतिक्रम्य गतिस्तिस्रोप्यवाप परमां गतिम् कैकेयी चापियोगं रघुपदिगदिदं पूर्वमेवाधिगम्य श्रद्धा हृदिरखुतिलकं भावयन्ती गदासुः गत्वा स्वर्गं स्फुरन्ती दशरथसहिता मोदमानावतस्ते माता श्रीलक्ष्मणस्याप्यधिविमलमधिः प्राप भर्तुः समीपम् इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे सप्तमः HOO instrument